एतावद् दशकम् शमन्तको भाज्ञानम् सत्राजिदस्त्वमतलुप्तवदर्कलब्दम् दिव्यम् शमन्तकमणिम् भगवन्नयाचि तत्कारणम् बहुविधम् मम भाति नूनम् तस्यात्मजाम् चलतो विवोडुम् अदत्तम् तम् मणिवरमनेनाल्पमनसा प्रसेनस्तद्भ्राता गलबुविवहन् प्राप मृगयाम् अहम् येनम् सिंहो मणिमहसिमाम् स भ्रमवचात् कबीन्त्रस्त्वम् हत्वा मणिमपि च बालाय दतिवान् स संशोचत्राजेत् गिरमनुजनास्त्वाम् मणिहरम् जनानाम् पीयूषम् भवति गुणिनाम् दोषकणिका तदा सर्वज्ञोऽपि स्वजनसकितो मार्गण परा प्रसेनम् दृष्ट्वा हरिमपि गतो बु कपि गुहाम् भवन्तमविदर्कयन् अधिवया स्वयम् जाम्बवान् मुगुन्तः शरणम् हि माम् कथयि करोद्धुमित्यालपन् हरे जय जयतल मुष्टि चिंस्तव सर्चन व्यदितूटाणि बुद्धा दत्न दद्दा न वरमणि वरमणिच पिगृन अनो गृहन्न अमुमाघा तबति च सत्राजिते मणिम् प्राधाम् सकलु व्रीणा लोलो विलोल विलोलविलोचना दुहितरमकोदीमान् पामाम् गिरैव परार्पिता अधितमणिना तुभ्यम् लभ्यम् समेत्य भवनापि प्रमुदितमनास्तस्यैवादान्मणिर्गहनाशयम् व्रीडाकुलान् रमयति त्वयि सत्यभा माम् कौन्तेयदाह कथयात कुरून् प्रयाते हि गान्तिनेयकृतवर्म गिरा निपात्य सत्राजितम् च तदनुर्मणिमा जहार लोक्यकान्ता हत्वार्दृतम् च तदनुम् समकर्षयस्ताम् रत्ने स शङ्क इव अक्रूर एष भगवन् भवतिश्च यैव सत्राजितः कुचरितस्य युयोजहिंसा अक्रूरतो मणिमहाकृतवान् पुनस्त्वं तस्यैव भूतिमुपधातुमिति प्रवन्ते भक्तस्त्वयि स्थिरतरः सहि तस्यैव कापतमतेकतमीश जाता विज्ञानवान्व्रचमवानहमित्युदीर्णम् गर्वम् ध्रुवम् चमयितुम् भवता यातं यातम् भयेन पुनस्तम् आहूय तद्विनिहितम् चमणिम् प्रकाश्य तत्रैव सुव्रतदरे विनिदाय दुष्यन् भामाकुशान्तरशय पवने चपाय कृष्णबोल् कृष्णबोल् कृष्णकृष्णबोल् राधा समेध